श्रीमद्भागवत्महापुराणं चतुरशीतितमोऽध्यायः चित्तस्योपशमोऽयं वै कविभिः सासुचक्षुषां दर्शितः सुगमो योगो धर्मश्चात्मबुधा वः अवम् अयं स्वस्य न पन्थाज्जाते गृहमेधिनः यच्छद्धे आप्त वित्तेन शुक्लेन जेतपूरुष वित्तैषणां यज्ञदाने गृहे दारसुतैषणाम् आत्मलोकैषणां देवकालेन विसृजेद्बुध ग्रामे त्यैतैषणा सर्वे यदिशीरातपोवनम् ऋणयेन्त्रीभिर्द्विजो जातो देवर्षि पितॄणां प्रभो यज्ञाधिनपुत्रैस्तान्यस्तिर्य त्यजन् प्रतेत त्वं त्वद्य मुक्तो द्वाभ्यां वैर्सि पित्रोर्महामते यज्ञै देवर्णमुन्मुच्च निर्णो शरणो भव वसुदेव भवान् नूनं भक्त्या परमया जगतामीश्वरं पार्च्य स यद्वां पुत्रतां गतः श्रीशुकुवाच इति तद्वचनं श्रुत्वा वसुदेवो महामनाः तादृशे ने द्विजो वव्रये मृध्नम्य प्रसाद च त एन मृषयो राजन्मृता धर्मेण धार्मिकम् तस्मिन्नया जयन् क्षेत्रे मुखैरुत्तमकल्पकैरदीक्षायां प्रवृत्तायां विष्णयपुष्करस्रजः स्नाता सुवाससो राजन् राजानवलङ्कृता तन्महिष्याश्च मुदिता निष्कण्ठ्य सुवाससः दीक्षा सालामुपाजग्मु आलिप्ता वस्तुपालयः ने दुर्मृदङ्गपटः शङ्खभैर्यानकादयः नलितुर्नटनर्तक्य सुष्टुभूषुतमागताः जगुषुकण्ठ्यो गन्धर्वसङ्गीतं सह वर्तिकाः तमभ्यं सिञ्चनं विधिवन् अक्तमभ्यक्तमृत्विजः पत्नीभिरष्टादशभिः सोमराज विभोढुभि ताभिर्दुकूलवलियैर्हार नूपुरकुण्डलैश्वलङ्कृताभिर्बभुभौ दीक्षितो जिनसंवृतः तस्य त्रिजो महाराजरत्नकौशेयवाशसः स सदस्याभिरेजुस्ते यथा वृद्धहणोऽध्वरे तदा रामश्च कृष्णश्च स्वैश्वै बन्धोभिरन्वितौ नेजतु स्वश्रुतैर्तारै जीवेशौ स्वविभूतिभिः एजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः प्राकृतैर्वै कृतैर्यज्ञै सव्यज्ञानक्रियेश्वरम् अथर्त्विग्भो ददात्काले यथाम्ना स दक्षिणाः स्वलङ्कृतेभ्योऽलङ्कृत्य गोभुकन्या महाधनाः पत्नीशय्याजावभृत्ये चरित्वा ते महर्षयः स स्नु रामहृदे प्रा यजमानपुरशराः स्नातोऽलङ्कारवाशांसि वन्दिभ्यो दा तथा श्रियः ततः स्वलङ्कृतो वर्णाम् आशुभ्योऽर्णेन पूजयत बन्धुन् सदारान् ससुतां त्वारि बर्हेण भूयसां विगर्भकोशलकुरुन् काशिके कयशे यन्त्रिजयान् सदस्य त्वेन सूर्यगणानभूतप्रत्यचारणान् श्रीणिकेतमनुज्ञाप्य शंसन्तप्रयो क्रतुं धृतराष्ट्रो निज पार्थाभिस्मोतॄण पृथायमौ नारदो भगवान् व्यास सु हृस्सम्बन्धिबान्धवाः बन्धूना परिसृज्य यदून सौहृदाङ्किलं न चेतस यच्छेन स्वदेशांश्च परे जनाः नन्दस्तु स गोपाले विहत्या पूजयार्चित कृष्णरामो ग्रसेनाद्यैर्नवासीन् बन्धुवः सर वसुदेवो जसोतिर्यमनोरसमाणवम् श्व्यपेतमनानन्दमाहकरेष्व सन् वसुदे उवाच भ्रातरि सकृतपासो नृरां ज स्नेहसङ्गितः तं दुश्च मन्ये सूराणामपि योगिनाम् अस्मात् स्वप्रतिकल्पेयं यत्कृताज्ञेषु सप्तमये मेत्यर्पिता फला वापि न निवर्तेत कर्हिते प्राग्कल्पाच्च कुशलं भ्रातर्वो नाच रामहे अधुना श्रीमदान्धाक्षा न पश्याम पुरशतः माराज्य श्रीरभुत्पुंसः श्रेयस्कामस्य मानध स्वजननानुतं बन्धून वा न पश्यति ये आन्धते शेषो गुवाच एवं सौहृदशैथिल्यचित् आनकदुन्दुभि रुरोद तद्गृतां मैत्रीं स्वरन्नश्रुविलोचनः नन्दस्तु सख्यो प्रियकृतप्रेम्णा गोविन्दरामयोः अद्य स्व इति मां शास्त्रीं यदुभिर्माणितोऽवसत् ततः कामै पूर्यमाणसव्रजशं बान्धव परार्घ्याभरणक्षोम नानानर्घपरीक्षदैः वसुदेवोग्रसेदाभ्यां कृष्णोद्धवबलादिभि दत्तमादाय परिवर्षं यापितो यदिभिर्ययौ नन्दो गोपासु गोपश्च गोविन्दचरणाम्बुजे मनः क्षिप्तं पुनर्हर्तुम् अनीशां मधुरां मथुरां ययू बन्धुसु प्रतिया तेषु विष्णय कृष्णदेवताः वेक्ष्य प्राविशमासन्नाम् यदुर्द्वारवतिम् पुनः जनेभ्यः कथयाश्चक्रुर्यदुर्देव महोत्सवम् यदासीतीर्थयात्रायाम् श्रीस्सन्दर्शनादिकम् इति श्रीमद्भागवते महापुराणे पारहंसाम् जयितायाम् दशम् स्कन्धे पुत्रार्थे तीर्थयात्रानुवर्णनम् नाम् चतुरशीति तमोऽध्यायः